हरि ओम् श्री नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे षट्षष्टितमः सर्गः कुम्भकर्णभयात् पलायमानानाम् वानराणाम् अङ्गदेन प्रोत्साहनम् आवाहनम् च कुम्भकर्णेन कपीनाम् संवारः पुनर्वानरसैनिकानाम् पलायनम् अङ्गदेन प्रबोध्य तेषाम् पुनः प्रत्यावर्तनम् च स लङ्घयित्वा प्राकारम् गिरिकूटोपमो महा निर्ययो नगरान् तूर्णम् कुम्भकर्णो महाबलः ननाद च महानादम् समुद्रमभिनादयन् विजयन् इव निर्घाताम् विधम्मन् इव पर्वताम् तम् अवध्यम् यमेन वरुडेन वा प्रेक्ष्य भीमा क्षमायान्तम् वानर विप्रदुद्रुवुः तास्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽगो ब्रवीत् ननम् नीलं गवाक्यं च कुमुदं च महाबलम् आत्मनस्तान् विस्तृत्य वीर्याण्याभिजनानि च क्व गच्छत हर व्योय था। साधु सौम्याम किलम युद्ध वहीक्ष महतीय विभीषिक महती मुत्थिताक्षसा विभीषि विक्रम विधम्छा निवर्तम प्लबंग कृच्छेण तु क्षमाश्वस्य सङ्गम्य च ततस्ततः वृक्षान् गृहीत्वा हरय सम्प्रतः सूरणाजिरे ते निवर्त्य तु संरब्धा कुम्भकर्णम् वनोकतः निजघ्नो परमक्रुद्ध स मद इव कुञ्जरः प्राशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः पादपै पुष्पिताग्रैश्च हन्यमानो नकम्पते तस्य गात्रेषु पतिता विद्यन्ते भव शिलाः पादपा पुष्पिताग्र भग्ना पेतुर्महीतले सोऽपि सैन्यानि संक्रुद्धो वानराणां महोजसा मम परमायतु वनान्यग्निरिवोत्थितः लोहिताग्रासु भव शरीर ते वानर शभ निरस्ता पतिता भूमौ ताम्रपुष्पा इव द्रुमः लङ्घयन्तः प्रधावन्तो वानरानावलोकयन् केचित् समुद्रे पतिताः केचित् गगनमासितः वध्यमाना सु ते वीरा राक्षसेन च लीलय गनं येन ते तीर्णः पथा तेनैव दुद्रुवुः ते स्थलानि तदा निम्नम् विवर्णा वदनाभयात् वृक्षा वृक्षान्तमारूढः केचित् पर्वतमाश्रितः मम मा जोरर्णवे केचित् गुहा केचित् समाश्रितः निपेतु केचिदपरि केचिन्नैवावत स्थिरे केचिद् धूमो निपतिता केचित् सुप्तामुता इव तान् समेक्षानो भग्नान् वानरान् निदमब्रवीत् अवतीशत युध्यामो निवर्तध्वम् ब्रमङ्गमः भग्नानाम्भो न पश्यामि परिक्रम्य महीमिम स्थानम् सर्वे निवर्तध्वम् किं प्राणां परिरक्षथ निरायुधानां क्रमताम् असङ्गगतिपौरुषाः ददाह्युपहसिष्यन्ति स वैघातः सुजीवताम् क्रेषु धाताः सर्वेस्मिन् विस्तीर्णेषु महत्सु च क्व गच्छत भयत्रसा प्रकृता हर्यो यथा अनार्या त्यक्ता वीर प्रधानत विकत्थना वो यानी जन संसदी ती वक्याता सोदग्रणी हिता चीरो प्रवाद्रूय यस्तु जीवतिता मग सत्षेजुष्ट सव्यताजता शया महे निहता पृथिव्यामल्पजीविता प्राप्नुयामो ब्रह्मलोकम् दुष्प्रापं च कुयोधिभिः प्राप्नुयामः कीर्तिम्ब निहत्वा शत्रुमहवे निहता वीरलोकस्य भोक्ष्यामो वसुवानरः नै कुम्भकर्णकाकुत्थं दृष्ट्वा जीवन् गमिष्यति दीप्यमानम् विवासाद्य पतंगो ज्वलनम् यथा पलायनेन चोद्दिष्टा प्राणान् रक्षा महे वयम् एकेन बहवो भग्ना यशो नाशं गमिष्यति एवम् ब्रुवाणम् तं शूरम् अङ्गदम् कनकाङ्गदम् द्रवमाणा सदोवाच्यम् ऊच शूरविगर्हितम् कुटम् नः कदनम् घोरम् कुम्भकर्णे न रक्षस न स्थानकालो गच्छामो दयितुम् जीवितं हिनः एतावदुक्त्वा वचनम् सर्वे ते भेजिरे दिशः भीमम् भीमा क्षमायान्तम् दृष्ट्वा वा नरयूथपः द्रवमाणस्तु ते वीर अङ्गदेन बलिमुखा ततः सर्वे निवर्तिताः प्रचनीता च बालिपुत्रेण धीमतः अन्या प्रतीक्षा सर्वे वानर यूथपः वृषभ शरभयमेन्द्र धूम्र नीलः कुमद सुषेण गवाक्षरम्भाराय विविध पनस वायुपुत्र मोक्ष त्वरितराभिमुखं गणं प्रयात विद्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे षट्षष्ठीतमः सर्ग श्री सीता